पश्चादुतपोर्णा पुरस्तादन् मध्यतः पौर्णमासेति गाय तस्याम् देवा अधिसम्वसन्त उत्तमेना कलिहमादयन्ताम् यत् ते देवा अदधर्थाकथे न ममावास्ये संवसन्तामहित्वा सानायज्ञम्बिबे विश्ववारे नयुन्नाथे हि सुभगे निवेशने सङ्गमने वसूनाम् विश्वारूपाणि वसून्यावेशयन्ति सहस्रपोषको सुभगादरासा न आगम् वर्तसा संविधाना भग्ने सोमौ प्रथमौ वीर्येण वसोऽम् रुद्राणादित्यानि हजन्वतम् माध्यनु हिमो होर्नमासम् जुषेधाम् ब्रह्मणा वृद्धौ सुकृतेन सा तावस्मभ्यगम् सह वे रागुम् जगिम् निगच्छतम् आवित्याश्चाङ्गिरसश्चाग्नेनादध तेतलश पूर्णमासौ प्रैप् हविरासे दधातौ मण्डल शवोर्नमासा वा लभमानदे तौ होमौ पुरस्ताज्जुयात् साक्षादे मदल शवोर्नमासा वा लभदे ब्रह्मवादिनवेदलशवोर्नमासा वा नुलोमं च प्रतिलोमं चाद्या नित्यमावास्यायावोर्ध्वं तदनुलोमं पौहोर्नमास्ये प्रदेचेन तत्प्रतिलोमं यत्पौर्नमासीं पोर्वामालभयतदिलो मे नावालभयता मम पक्षे यमानमन्वपक्षीजस्वरो पुरस्ताजुजायमावास्यावि सरस्वत्यनुलोममे वैनावालभते मुमात्याय वैष्णवमेकादशगमानं पुरस्तान्न सरस्वत्ये जलगौ सरस्वद्वादशगमाले भवति यज्ञो वै विष्णुनु यज्ञवैवारध्य प्रतनुते सरस्वत्येभवति सरस्वते द्वादशकपालो मा वास्या वै सरस्वते पोर्णमासत् सरस्वान्ता वै साक्षादानपदनात्याभ्यान्माजमा सरस्वते भवति मिशनत्पालप्रजाहाद्य मिशनौ गाभौ दक्षिणा समृद्धै द्विषयो वा इन्द्रं प्रत्यक्षं न पश्यन्तं वसिष्ठ प्रत्यक्षमपश्यत् सोऽ ब्रवेत् ब्राह्मणं दे वक्ष्यामि यथा त्वत्पुरोहिता प्रजा प्रज नष्यन्दे धेतरे प्रवोचयदि तस्माजेतां वसिष्ठपुरोहिता प्रजाः तदस्मा ब्रह्माकार्यः प्रैव जालत रस्मिद क्षया यज्ञं प्राह प्रेतिलसि धर्मा जत्वा धन्म जिन्वेद्याह मनुष्या वे धर्मा मनुष्येभरेव यज्ञं राहान्विलसि दिवे त्वा दिवं ष्टो वसभ एकादश रुद्रादशादित्यादेवास्तेर्धदेव यज्ञम् प्राहौ ज्योब्धस्वा िन्वेत्याह रेव नेव विदुलेन सन्तनादिकन्तुले भस्मा प्रजा जिन्वेत्याह विदुलेनेव प्रजा अनसन्तनादिमृतनाशासि पशुद्धस्ता पशुवन् जिन्वेत्याह प्रजादेव पशोननुसन्तनादिरेवस्योषधेभ्यस्मोषधे जिन्वेत्याहोषधेष्वेव पशोन्ष्ठापयत्यभिजिरसयुक्तग्रावेन्द्राजत्वेन्द्रन् जिन्वेत्याहाभिजि ध्याः पथिवधिरसि प्राणायत्वा प्राणन् सिंहेत्याः प्रजाश्रेव प्राणान् दधाय त्रवृदसे प्रवृतसेत्याहमिषनद्वायसगम् रोहसिमसेषिवस्येत्याः रो प्रतिष्ठच्छ ग्निना देवेन पृतना जगामि या यत्रेण छन्दसा त्रिवृता स्तोमेन सन्दरेण साम्ना वषकारेण वज्रेण पूर्वजान् भाद्रजानधरान् स्मिन् षजेऽस्मिन् भूमिलोके लोहस्मान्द्वेष्ठिरं च भजन् विष्मा विष्माक्रमेणात्येन क्रमानीन्द्रेण देवेन पृतनाजया मित्रैस्तुभेन छन्दसा पञ्चदशेन स्तोमेन बृहता सां न षट्कारेण वज्रेण सहजा विश्वेभिर्देवेभिः पृतनाजया मिलागतेन छन्दसा सप्तदशेन स्तोमेन वामदेव्येन सां न न्द्रेण सयजोसा सह्याम पृतन्यतः प्रति अज्ञे तेजस्तेनाहम् ते तेजस्वै भोजा संयत्ते अज्ञे वर्चस्तेनाहम् वर्चस्वे भोजा संयत्ते अग्ने हरस्तेनाहकम्हरस्वे भोजासम् ये देवायज्ञहनो यज्ञमुषः पृथिवजामध्वासते अग्निर्मादेभ्यो रक्षदुगच्छेम सुषुतो भयम् आगन्ममिद्रावरुणावले ध्यारात्रीणाम् भागो नियोर्यो अस्ति भागम् गृह्णाना सुकृतस्य लोके त्रिजीरे वृक्षे अभिलोचने दिवः एना यज्ञमुषान्तरिक्षेऽध्यासते वायुर्मादेभ्यो लक्षदुगच्छेम सुकृतो यास्ते रात्रेः सविदर्देव जानीरम् तनाध्यावाप चमी विजन्ति गृहैश्च सर्वैः प्रजयान् वग्रे सुबो गुरुहाणास्तनतारजा ये देवायज्ञहना यज्ञमुषो दिव्यध्यासत् सौर्यो मातेभ्यो रक्षेन सुकृतो वयम् येनेन्द्राय समफलः पराग्रमेन हविषा जातवेदः े त्वमुदवर्धयमगं सजाता नाग्रेश्वः नो वे देवायज्ञमुषः सन्ति तेषु लोकेश्वासत आददाना विमध्वाना यो ददा विजोगज देतस्या ये देवायज्ञानः पृथिव्यामध्यासते ये अन्तरिक्षेजेत्या हेमानेव लोकायस्तीर्त्वा सविहस्तवशस्सु वर्गं लोकमेत्यपवे सोमेताहास्य यज्ञश्चक्रामञ्चेरं पञ्चकपालमुदवसाने गङ्गर्ववेदज्ञः सर्वा देवताह्वान्तो यज्ञो देवता लग्नम् चावरुन्धे कारत्रो वा अग्नर्गा यत्र छन्दास्तन्छन्दसा व्यर्थय जगद्वन्दकपालम् दलभ्यष्टागपालः कार्योष्ठाच्छदाकारत्रे कायत्रो गर्गा यत्र छन्दास्य नैवैनच्छन्दसा समर्थयति पञ्चौराज्यानुवाद्य भवतः पान्तो यज्ञस्य नैव यज्ञान इति सूर्यो मा देवो देवेभ्यः पादुपादुरम् दक्षाद्यजमानोऽर्मा पादुचक्षुषः सक्षशोष समितर्विश्वचर्षण एतेभिः स्वमनामभिधेमतेभिः स्वामनामभिधेमते अहम् परस्तादहमवस्तादहम् ज्योतिषामि तमो बाल यदम् दलक्षन्त मे पिता भोदहगंसो भजतो ददर्शाहम्भोजातमुत्तमः समाना नामा समुद्राधाम् दलक्षात् प्रजापजरुदधिन्स्यापजातेनौ मरुतो वर्षयन्तोन्नम् भज पृथिवेम् भिन्धेतम् तिविजन्नभः भुज्नो दिविजस्य नो देहेशानासृजा दृतिम् पशवो वादे जगदादित्यदेश रुद्रो यदग्निरोषधेष्स्याज्ञा वादित्यञ्जुहोदरुद्रादेव पशोनम् तर्दधाद्यषधेष्ठेव पशोङ्गा वयति भगि यज्ञस्य वितनादिपन्थान्नागस्य पृष्ठे अभिलोचने दिवः येन हिलम्बः सिदासिदोत इतः यास्ते विश्वाः समिधः सन् जग्ेदाः प्रसुजाम् मर्हिषतोस्ते गच्छन् बाहुजम् हृतस्तदेवायते यजमानाय शर्म आशास्तु जगो राजस्वषग् स्वस्मिजम् बृहस्मति नाराजा स्वगाकृतो मह्यम् यजमानायतुर्थ ृतेन संवानिक्याम्यपोषधेभिः सम्वान्यामि प्रजजाहमर्दशादेः क्षिदासनभोवाय वस्मे प्रेतम् ब्रह्मणस्पत्नि वेदिम् वर्णेन सेदतु अथाहमनुकामिने स्वे लोके सपत्ने स्वप्रदशस्त्वा विदकं सुपत्नेरुपसेदिमा अग्ने सपद्मदम्भनमदग्ध सोलाहाभ्यम् वरुणस्य वासयमध्मेतस पिता सुकेतः धातुश्च दोनौ सुकृतस्य लोके स्योनम् मे सहमुद्याकरोमितस्य वामेरम् भग्निस्ते गणजपदिकर्मददाम् रुद्रामसृष्टासि युपाना ममाहिकम्भ्यो गृण्हामि जज्ञाय वः पन्ने दने स्वा ददामिश्वस्य देवि स्वावधो वृष्णया वधस्तवाग्ने वामेरनु सन्दृश विस्वारदागम् देवानि ज्ञानि देवेर्देवे यज्ञवशषन्नस्मिन् आशिषस्वाहार्वा समुद्रेष्ठागम् धर्ववादिष्ठता नो वादस्य पद्मम् निडदे भिताः षत्कारो वै गायत्रिजैशिरोस्यैरसत्परापदत्सृशिवेन्द्रखदिरस्रुव अस्याहुतलो भवत्याह रक्तस्य वर्णमच्छिद्यत तत्पर्णो भवत्तत्पर्णस्य पर्णात्मै यश्च वर्णम रेजुहोर्भवति सौम्या अस्याहुतलो भवम् विदुषं देवाहुते देवा वै ब्रह्मन्नवन्धर्णपुपाश्रण शुश्रवा वै नर्णमले जहर्भवति न वाग्रस्व गोशृणो दि ब्रह्म वै पर्माविन्मरुतोन्नं विन्मारुतोः स्वच्छो यस्य वर्णमदे जहोर्भवत्याश्वच्छमणैवान्नवरुन्ध ब्रह्मैव विश्वच्छो हरिराष्ट्रं वै पर्माविदश्व भवत्याश्व प्रजापुहत्सायत्रातिष्ठत्ततो विकङ्कधुदतिष्ठत्ततः प्रजा अशस्य वैकङ्के ध्रुवा भवति प्रत्यैवास्याहुलस्त्यैवजागो रूपा यस्यैव भवन्ति सर्वान्नेवैनगो रूपाणि पशूनामुपतिष्ठन्ति स्यापरो ममात्मञ्जायते जामगृहे दोष प्रजापतरे ज्योतिष्मदे ज्योतिष्मन्तं गृह्णामिदक्षाय दक्षमितं देवेभ्योत्ताज्जेष्ठेभ्यो वर्णराजभ्यो वाताभ्यः पर्जन्याहात्म्यो दिवे त्वां दक्षागत्वा पृथविजे त्वागत्वा चारादे यत्वाद्भ्यस्तोभ्यो विश्वेभ्यस्ताभूदभ्यतः प्रजा अक्षद्रा अजायन्दस्मै त्वा प्रजापद विभोदा वह्मे ज्यो दष्मद ज्यो दष्मन्दम् जहोमि अध्वरुदश्च यजमानश्च देवतामन्दरितस्तस्य आविश्चेते प्राजाभत्यं पथि ग्रहम् गृह्णेयाद्वजापतिः सर्वा देवता देवताद्भजैवम्भुवादे ज्येष्ठो वा जैषङ्ग्रहाणां यस्थेष गृह्यते ज्यैक्षमेव गच्छति सर्वासां वा वैतद्देवतानागौरो वैय देश ग्रहो यश्चैष गृह्यते सर्वाण्येवैन गौरो शो नामुपदिष्ठं तमुपजामगेतो प्रजापदक्ष्मद ज्योतिष्मन्दं गृह्णामेत्याह ज्योतिरे वैमघं समानानाहङ्करोत्यग्निवेभ्यस्मदाजत्याहयितावते वै देवतास्ताभ्यज वैमकं सर्वा लापनुत्यै प्राणायत्वा बाणायत्वेत्याः प्राणानेव यजमाने तथा जलस्मै हे त्वा प्रदापदले विधोदा ज्योदशम ते ज्योदशमं तञ्जुहोमेत्याः प्रजापदस्सर्वा देवता सर्वाभ्यज वैनं देवताभ्यजुहत्याजग्रहं गृह्णेधात्येजस्कामस्थेजसोमा आर्जं देवस्यैव भवज सोम ग्रहं गृह्णेदा ब्रह्मवदशकामस्य ब्रह्मवजं वै सोमाः ब्रह्मवचस्यैव भवज दश ग्रहं गृह्णेदश कामस्य ओर्जैव स्मागोर्जम् वशो न वरुन्धे त्वे क्रतुमपि वृन्दम् दिविश्वेर्विर्यतेर्भवन्त्योमा स्वादोस्वादेतस्वादुना श्रीधासमत कोशुमधुमधुनाभियोधि उपयानगृहे दोशप्रजापदयद्वादुष्टम् गृह्णान् मेफले प्रजावदद्वा प्राणग्रहा ग्रन्थात्येतावद् वा अस्ति यावदे च ग्रहास्थोमाच्छन्दागुंसिष्ठानि दिशो यावदेवास्ति तदवरुन्धे ज्येष्ठा वा एतान् पुराभिरामक्रन्दस्मा तेषागुं सर्वादिशोऽजिताघोभनिजस्यैज्यं जे ज्येष्ठमेव गच्छत्यभिदिशोदगिपं च गिह्यं देवं जिष सर्वाः स्वेव दिक्षुवन् दिनवनवगिह्यं दे नव वै पुरुष प्राणा प्राणानेव यजमानेषु दधति प्राणैरेव नयन्ति प्राणेरुद्धन्ति च समेऽहम् गृह्यन्ते प्राणावै प्राणग्रहा प्राणे खलु वाचे तत् प्रजायन्तु यद्वामदे व्यजय्योनेश्च्यमदे समेऽहन् वामदे व्यजय्योनेः स््यमदे यद् समेऽहम् गृह्यन्ते प्राणेभ्यदेव तजानयन्ति प्रदेवं देव्याजातरता जातवेदसम् हव्यानोपक्षदानुषक् अयमुष्यप्रदे मयुरुहोताजज्ञाय नीयते रथो नयोरथे मृतोग्निवान् चेतदिग्मना अयमग्निरुष्य चमृतादिवजन्मनः दे सहसश्चित्सहेनाम् देवो देवातवे कृतः स्तापदेवजम् नाथापृथिविला अधि जातवेदो निधे मह्यग्नेहमिलायवोढवे अहमे विश्वेऽभिस्वनेकदेवैरोर्णावन्तम् प्रथमसीतानिम् कुलातवन्तकं समित्रे यज्ञम् न रजमानाय साधु सेदः तस्वपुलोके च वित्वान् साददा यज्ञकं सुकृतस्य योनो देवादेर्देवानह विषायधास्यग्ने बृहद् यजमाने निहो दाहो विदानस्वेशो विदानस्मेषो दे दिवागम् असदत् सुदक्षः अलब्धव्रतप्रमजर्वषष्ठः सहस्रम् भरत् शुचिजिक्वो अग्निः त्वम् दोतस्त्वपुनः परस्पास्त्वम्बस्य सदाबन्धागमे महे महेद्योस्कृषवेचन यमयज्ञम् विमिक्षताम् वृदाह्ना <laughs> फले मधे पामग्ने पुष्करादध्य सर्वाणिरमन्थत मोघ्ना विश्वस्य वागतः तमुद्वादध्यम् घृषः पुत्रये जय असर्वणः वृत्रहणम् पुरन्दरम् तमुद्वादाध्य मृषा समेधे तस्योहन्तमम् धनञ्जयगो रणे रणे उत जन्त जन्दमबुदग्निर्वजने धनञ्जयोहस्तेन खाति न सञ्जातम् न बिभ्रति विषामग्निग् स्वदेवम् देववेदेव भरतापसुवित्तमम् आस्वेयो नौ निषेदतो आजातम् जातवेदशिप्रियगुंसि अग्निनाग्निः समिध्यते गविर्गृहतिर्युवाजिह्वास्यग्ने अग्निना विप्रो विप्रणसन् सथा सखा सखा समिध्यसे तम् मर्जयन्त सुक्रतुम् पुरो यावायमादिषु सेषु क्षयेषु वाचिनम् यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् देहनागम् महिमानस्तेय पूर्वे साध्याः सन्ति देवाः हरिः